ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं फैव् लोककल्पनं सूद उवाच आपोऽग्रे सर्वगा आसन्नेतस्मिन् पृथिवीतले शान्दवादैप्रलीनेऽस्मिन्न प्राज्ञा यद किञ्चन ये कार्णवेत् तदा तस्मिन्नष्टे स्थावरजङ्गमे विभुर्भवति सब्रह्मा सहस्राक्षःसहस्रपात् सहस्रशीर्षपुरुषो सहस्रा रुक्मवर्णो ह्यतीन्द्रियः ब्रह्मनारायणाख्यस्तु सुष्वापसलिले तदा स त्वोद्रेकनिषिद्धस्तु शून्यं लोकमवैक्षत इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति आपो नारा इति प्रोक्ता आपो वै नरसूनवः अयनं तस्य ताः प्रोक्तास्तेन नारायणस्मृतः तुल्यं युगसहस्रस्य वसन् स्वर्णपत्रे प्रकुरुदे ब्रह्मत्वादर्शकारणाद् ब्रह्मादुसलिरे तस्मिन्नवाग्भूत्वा तदाचरन् निशायामिव खद्योदः प्रावृत्काले ततस्तु सलिले तस्मिन् विज्ञायान्तर्गदे महद अनुमानादसम्मूढो भूमेरद्धरणं प्रति ओङ्काराष्टतनुं त्वन्यां कल्पादिषु यथा पुरा तदो महात्मा मनसा दिव्यरूपमचिन्तयत् सलिले वप्लुतां भूमिं दृष्ट्वा स समचिन्तयत किन्दुरूपमहं कृत्वा सलिलादुद्धरे महीं जलक्रीडासमुचितं वाराहं रूपमस्मरद अदृश्यं सर्वभूतानां वाङ्मयं ब्रह्म संज्ञितम् दशयोजनविस्तीर्णमायतं शतयोजनं नीलमेकप्रतिकाश्यं मेखस्तनितनिस्वनम् महापर्वतवर्ष्माणं स्वेदतीक्ष्णोग्रदंष्टृणं विद्युदग्निप्रतिकाश्यमादित्यशमतेजसम् पीनवृत्ताय तस्कन्दं विष्णुविक्रमगामि च पीनोन्नतकडीतेशं वृषलक्षणपूजितम् आस्थाय रूपमधुलं वाराहममिदं हरिः पृथिव्युद्धरणार्थाय प्रविवेश दीक्षा समाप्तिष्ठिदंष्ट्रक्रदुदन्तो जुहुमुखः अग्निजिह्वो दर्भरोमो ब्रह्मशीर्षो महातपाः वेदस्कन्दो हविर्गन्धिर्हव्यकव्यादिवेगवान् ग्वंशकायोद्युदिमान्नादीक्षाभिरन्वितः दक्षिणाहृदयो योगी श्रद्धा सत्त्वमयो विभुः उपाकर्मरुचिश्चैव प्रवर्ग्या वर्तभूषणः नानाछन्दोगतिपथो गुह्योपनिषदासनः सहायो वै गिरिशृङ्गमिवोच्छ्रयः अहोरात्रे क्षणाधरो वेदाङ्गश्रुतिभूषणः आज्यगन्धस्रुवस्तुण्डसामकोषस्वनो महान् सत्यधर्ममयश्रीमान् कर्मविक्रमसत्कृदः प्रायश्चित्तनखो घोरः पशुजानुर्महामखः उद्गादां त्रो होमलिङ्गलबीजमहोषधीः वाद्यन्तरात्मसत्रस्य नास्मिका सोमशोणितः पक्ता यज्ञवराकान्ताश्चाप सम्प्रविशत्पुनः अग्निसंच्छादिदां भूमिं समामिच्छन् प्रजापतिम् उपगम्या जुहावैदा मध्यश्चाद्य समन्यसद सामुद्राश्च समुद्रेषु नादेयाश्च नदीषु च पृथक्तास्तु समीकृत्य पृथिव्यां शोचिनोद्गिरीन् प्राक्सर्गे दह्यमानास्तु तदा संवर्तकाग्निना तेनाग्निना विलीनास्ते पर्वदा भुवि सर्वशः सत्यादे कार्णवेतस्मिन्वायुना यत्तु संहिताः निशिक्दा यत्र यत्रा संस्तत्र तत्राचलो भवत् तदस्तेषु प्रकर्णु लोको दधिगिरी तथा विश्वर्मा विभजते कल्पाषु पुनःपुन सद्राई पृथ्वी सप्तद्वी सपर्वता भूराद्यां चुरा लोकान पुनरक लोकान् प्रकल्पयित्वा च प्रजा सर्गससर्जः ब्रह्मा स्वयम्भूर्भगवां शिश्रुक्षुर्विविधाः प्रजाः ससर्जसृष्टं तद्रूपं कल्पादिषु यथा पुरा तस्याभिध्यायदः सर्गं तदा वै बुद्धिपूर्वकम् प्रधानसमकाले च प्रादुर्भोदस्तमोमयः तमोमोहो महामोहस्तमिस्रो ह्यन्धसंनिधः अविद्यापञ्च पर्वैषा प्रादुर्भुदा महात्मनः पञ्चधावस्थिदसर्गोऽध्यायद साभिमानिनः बीजकुंभलतावृता बहिंदा प्रकाशस्तता बुद्धिदुखा कस्माच संवृता मुख्या प्रकर्ति मुख्यसर्गे तदोद्भूतं दृष्ट्वा ब्रह्मात्मसम्भवः अप्रतीतमनाश्रोध तदोत्पत्तिममन्यत तस्याभिध्यायतश्चान्यस्तिर्यक्स्रोतोऽभ्यवर्तत यस्मात् तिर्यग्विवर्तेद तिर्यकस्रोतस्तदस्मृतः तमो बहुत्वात्ते सर्वे ह्यज्ञानबहुला स्मृताः उत्पाद्यग्राहमश्चैव ते ज्ञाने ज्ञानमानिनः अकङ्कृता अकम्माना आखं अष्टाविंशद्विधात्मिकाः एकादशेन्द्रियविधा नवधात्मादयस्तथा अष्टौदौ तारगाद्याश्च तेषां शक्तिवधा स्मृताः अन्धःप्रकाशास्ते सर्वे आवृताश्च बहिः पुनः तिल्यक्स्रोतस उच्यन्ते वश्यात्मानस्त्रिसंज्ञकाः तिल्यक्स्रोतस्तु सृष्ट्वा वै द्वितीयं विश्वमीश्वरः अभिप्रायमथोद्भूतं दृष्ट्वा सर्गं तथाविधम् तस्याभिध्या यदो योऽन्ध्यसात्विकसमजायत ऊर्ध्वस्रोतस्तृतीयस्तु तद्वै चोर्धं व्यवस्थितं यस्मादूर्ध्वं न्यवर्धन्त तदूर्ध्वस्रोतसंज्ञकं ताः सुखं प्रीतिबहुला बहिरन्दश्च वावृताः प्रकाश बहिरन्दश्च ऊर्ध्वस्रोतः प्रजा स्मृताः नवधादाब्दयस्ते वै तुष्टात्मानो बुधा स्मृताः ऊर्ध्वस्रोतस्तृतीयो यस्मृतः सर्वः सदैविकः ऊर्ध्वस्रोतस्सु सृष्टेषु देवेषु सतता प्रभुः प्रीतिमानभवद्ब्रह्मा तदोऽन्यं नाभिमन्यत सर्गमन्यं शिश्रुक्षुस्तं साधकं पुनरीश्वरः तस्याभिद्ध्या यदसर्गं सत्याभिध्यायिनस्तदा प्रादुर्बभौ भौदसर्गसोर्वाक् श्रोतस्तु साधकः यस्मात्तेर्वाक् प्रवर्तन्ते तदोर्वाक् श्रोदसस्तु ते तेज प्रकाशबहुलास्तमस्पृष्टरजोधिकाः तस्माते तस्मा दुखबूयचारीिण् प्रकाश बहिंद मनुष्या साधका सिद्धात्न मनुष्यास्ते गैसर्म पञ्चमोऽनुग्रहसर्गश्चतुर्था सव्यवस्थितः विपर्ययेण शक्रिया च सिद्धमुख्यास्तथैव च निवृत्ता वर्तमानाश्च प्रजायन्ते पुनः पुनः भूतादिकानां सत्त्वानां षष्ठः सर्गस्य उच्यते स्वादनाश्चाप्यशीलाश्च ज्ञेया भूतादिकाश्च ते प्रथमो महदः सर्गो विज्ञेयो ब्रह्मणस्तु सः तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते वैकारिकस्तृतीयस्तु चैद्रियः सर्ग उच्यते इत्येद कृत सर्ग उत्पन्ना बुद्धिपूर्वक मुख्य मुख्य सर्गचस्त मुख्यामता तिरकस्रोत सर्गस्तु मुख्या तैर्ो्योन्यस्तु पंचम तदर्धस्रोतसर्ग षो देत उच्य उच्यते, तत्रोऽर्धस्रोतसां सर्गः सप्तमः सदुमानुषः अष्टमोऽनुग्रहः सर्गसात्विकस्तामसश्च सः पञ्चैदेवैकृताः सर्गाः प्राकृताद्याश्रयस्मृताः प्राकृतो वैकृतश्चैव कौमारो नवमस्मृतः प्राकृता बुद्धिपूर्वास्तु त्रयः सर्गास्तु बुद्धिपूर्वा वै कृताः बुद्धिपूर्वा प्रवर्तेयस्तद्वर्गा ब्राह्मणास्तु वै विस्तराश्च यथा सर्वे कीर्त्यमानं निबोधत चतुर्था च स्थिदसोऽपि सर्वभूतेषु कृष्णशः विपर्यायेण शक्रिया च बुद्ध्या सिद्ध्या तथैव च स्थावरेषु सिद्धात्मनो मनुष्यास्तु पुष्टिर्देवेषु कृष्णशः अधो ससर्ज वै ब्रह्मा मानः सानात्मनः समान् वैवर्त्येन दुज्ञानेन निवृत्तास्ते महौजसः सम्बुध्य चैव नामाधो अपवृत्तास्त्रयस्तु ते प्रजासर्गम् प्रतिसर्गं ततस्ततः ब्रह्म तेषु व्यरक्तेषु तदोऽन्यान् साधकान् सृजन् स्थानाभिमानिनो देवः पुनर्ब्रह्मानुशासनम् अभूदसृष्ट्यवस्थाये स्थानिनस्तान्निबोधमे आपोऽघ्निः पृथिवी वायुरन्तरिक्षो दिवं तथा स्वर्गोद्दिश समुद्राश्च नद्यश्चैव वनस्पतीन् औषधीनान् तथात्मानोह्यात्मनो वृक्षवीरुधां ल कलाश्चैव मुहूर्ताः सन्धिरात्र्यः अर्धमासाश्च मासाश्च अयनाब्दयुगानि स्थाने श्रोतस्वभिमानास्तानाख्याश्चैव ते स्थानात्मनः स सृष्ट्वा तु तदोन्यां स तदा सृजद देवांश्चैव पितृंश्चैव यौरिमा वर्धिताः प्रजाः भृग्वाङ्गिरामरीचिश्च पुलस्त्यः पुलहक्रतुः दक्षोत्रिश्च वसिष्ठश्च सा नवब्रह्माण इत्येते पुराणे निश्चयं गदाः ब्रह्मा यथात्मकानां तु सर्वेषां ब्रह्मयोगिनां तदोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषात्मसम्भवं सङ्कल्पं चैव धर्मं च सर्वेषामेव पर्वतौ सोऽसृजद्व्यवसायं तु ब्रह्मा भूदं सुखात्मकं सङ्कल्पाच्चैव सङ्कल्पो जज्ञे सोऽव्यक्तयो निनः प्राणादक्षोसृजद्वाजं चक्षुर्भ्यां च मरीचिनं भृगुश्च हृदयाजज्ञे ऋषिः सलिलयो निनः शिरसश्चाङ्गिरश्चैव श्रोत्रा दत्रिस्तथैव च पुलस्त्यश्च तथोद्यानाद्व्यानात्तु पुलहस्तथा इत्येते ब्रह्मणश्रेष्ठाः पुत्रा वै द्वादशस्मृताः धर्मादयः प्रथमजा विज्ञेया ब्रह्मणस्मृताः भृग्वादयस्तु सृष्टा न चे ब्रह्मवादि गृह मेधिपुराणस्ते द्वादशैदे ब्रह्मण सुदशे प्रसूय सह रुद्रेण चिजा क्रदुस्सनकुमच्द्वावेधरे दस पूर्वोत्पत्तौ पुराह्येदौ सर्वेषामपि पूर्वजौ व्यतीतौ सप्तमे कल्प्ये पुराणौ लोकसाधकौ विरजेत्तेऽत्र वैलोके तेजसाक्षिप्य चात्मनः ता उभौ योगधर्माणावारोऽप्यात्मानमात्मना प्रजाधर्मं च कामं च वर्तयेदे महौजसौ यथोत्पन्नस्तथैवेहकुमार इति चोच्यते ततः सनत्कुमारेदि नाम तस्य तेषां द्वादशते वंशा दिव्या देवगणान्विताः क्रियावन्तः प्रजावन्दो महर्षिभिरलङ्कृताः प्राणजांस्तु स दृष्ट्वा वै ब्रह्म द्वादशसात्विकान् तदोऽसुरान् पितृन् देवान् मनुष्यांश्चासृजप्रभुः मुखाद्देवानजनयत्पितृंश्चैवाध वक्षसः प्रजननान्मनुष्यान् वै जघनान्निर्ममे सुरान् नक्तं सृजन् पुनर्ब्रह्मा ज्योत्स्नाया मानुषात्मनः सुधायाश्च पितृंश्चैव देवदेवः ससर्जः मुख्या सृजन् देवानसुरांश्च ततः पुनः मनसश्च मनुष्यांश्च पितृवन्महदः पिद्रु पितृन् विद्युदोशनिमेकांश्च लोहितेन्द्रधनुंषि च ऋचो यजूंषि सामानि यज्ञसिद्धये उच्चा उच्चावचा भूता महसस्त जिरे ब्रमणस्तु प्रजा सर्ग दषि पिदुमानवनसृजति भूता स्थावरा चक्षा पिशाचा गर्वान्र्वशोसरसा नरकिन्नररक्षांसि वयः पशुमृगो रगान् अव्ययं वा व्ययञ्चैव द्वयं स्थावरजङ्गमं तेषां ते देयान्ति कर्माणि प्राक्सृष्ठा निःस्वयंभुवा तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः हिंस्रा हिंस्रे मृदु क्रूरे धर्माधर्मौ कृदा कृते तेषामेव पृथक्सुदमविभक्तं त्रयं विदुः ये ददेवञ्चनैवं च न तथा कर्मस्वविषयं प्राहुसत्त्वस्ताः समदर्शिनः नामात्मपञ्चभूतानां कृतानां च दिवशब्देन पञ्चैते निर्ममे समहेश्वरः आर्षानि चैव नामानि याश्च देवेषु सृष्टयः शर्वर्यां न प्रसूयन्ते पुनस्तेभ्यो दधत्प्रभुः इत्येवं कारणाद्भूतो लोकसर्गस्वयंभुवः महदाद्या विशेषाता विकारा प्राकृता, स्वयं चंद्रसूर्य प्रभो लोको, लोकोग्रहनक्षत्रि नदी समुद्र पर्वत सहस्रशहधरम्यीधनपतस्त अस््रह्म ब्रह्म चरदि सर्वद अव्यक्बीजप्रभवस्तस्यैवानुग्रहे स्थितः बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः महाभूतप्रकाशश्च विशेषैः पत्रवांस्तु सः धर्माधर्मस् सुखदुःखफलोदयः आजीव सर्वभूतानां ब्रह्मवृक्षः सनातनः यद् ब्रह्मवनं चैव ब्रह्मवृक्षस्य तस्य तद् अव्यक्तं कारणं यत्र नित्यं सद प्रधानं प्रधानं प्रकृतिमायां चैवाहुस्तत्त्वचिन्तकाः इत्येषोऽनुग्रहसर्गो ब्रह्मनैमित्तिकस्मृतः अबुद्धिपूर्वका सर्गा ब्रह्मणप्राकृतास्त्रयः मुख्यादयस्तु षट् सर्गा वै कृता बुद्धिपूर्वकाः वैकल्पाः सम्प्रवर्धन्ते इत्येते प्राकृताश्चैव वैकृताश्च नवस्मृताः सर्गपरस्परोत्पन्ना करणं तु बुधै स्मृतम् मूर्धानं वैयस्य वेदा वदन्ति वियन्नाभिश्चन्द्रसूर्यं च नेत्रे दिश श्रोत्रे विद्धि पादौ क्षितिं णेद वक्त ब्राह्मण संप्रसूता वक्षसत्रिया पूर्वभागे वैश्या ऊरुभ्या ये पदभ्या चूद्रा सर्वे वर्ण गात्रूता नारायणात्परो व्यक्तादण्डमव्यक्तसंज्ञितम् अण्डजस्तु स्वयं ब्रह्मा लोकास्तेन कृतास्वयं तत्र कल्पान् दशस्थित्वा सत्यं गच्छन्ति पुनः ते लोका वै अपरावर्तिनीं गतिम् आधिपत्यं विना दे वै ऐश्वर्येण तु तत्समाः भवन्धिब्रह्मणा तुल्यारूपेण विषयेण च तत्र ते ह्यवतिष्ठन्ते प्रीतियुक्ताः स्वसंयुताः अवश्यं भाविनार्थे न ना प्राकृतं तनुते स्वयं नानात्वनाभिसंबद्भ्यास्तदा तत्कालभाविताः स्वपदो बुद्धिपूर्वहि बोधो भवति वै यथा तत्कालभाव्यते तेषां तथा ज्ञानं प्रवर्तते प्रत्याहारैस्तु भेदानां तेषां हिनदुषुष्मिणां तैश्व सार्धं प्रवर्तन्ते कार्याणि कारणानि च नानात्वदर्शिनां तेषां ब्रह्मलोकनिवासिनाम् विनिवृत्तविकाराणां स्वेन धर्मेण तिष्ठतां तुल्यलक्षणसिद्धास्तु शुभात्मानो निरञ्जनाः प्राकृते करणोपेदा स्वात्मन्येवव्यवस्थिताः प्रस्थापयित्वा चात्मानं प्रकृतिस्त्वेष तत्त्वतः पुरुषान्यबहुत्वेन प्रतीता न प्रवर्तते प्रवर्तते पुनः सर्गस्तेषां साकारणात्मना संयोगः प्रकृतिर्ज्ञेयायुक्तानां तत्त्वदर्शिनां तत्रोपवर्गिणीदेषामपुनर्भरगामिनाम् अभावद्धः पुनः सत्यं शान्तानामर्चिषामिव ततस्तेषु गदेषूर्ध्वं त्रैलोक्यात्तु मुदात्मसु ते सार्धं चैर्महर्लोकस्तदा नासादितस्तु वै तच्छिष्यायेक तिष्ठन्ति कल्पदाख उपस्थिते गन्धर्वाद्यापिशाचाश्च मानुषा ब्रह्मणादयः पशवः पक्षिणश्चैव स्थावरा तिष्ठत्सुतेषु तत्कालं पृथिवीतलवासिषु सहस्रं यत्तु रश्मीनां सूर्यस्येह विनश्यति ते सप्तरश्मयो भूत्वा एकैको जायते रविः क्रमेण शतमानास्ते त्रीं जङ्गमांस्तावरांश्चैव नदीः सर्वाश्च पर्वतान् शुष्के पूर्वमनावृष्ट्या यैस्तैश्चैव प्रदापिताः तदाते विवशा सर्वे निर्दग्धा सूर्यरश्मिभिः जङ्गमास्तावराश्चैव धर्माधर्मादिकास्तु वै दग्धदेहास्तदा ते युगात्यये धूतपापायुगात्यये ख्यादातपविनिर्मुक्ता शुभया चादिबन्धया ततस्तेऽह्युपपद्यन्ते तुल्यरूपैर्जनैर्जनाः उषित्वा रचनीं ते जब्रह्मणो व्यक्तजन्मनः पुनसर्गे पुनः सर्गे भव मानस्यो ब्रह्मण प्रचार ततस्पन्नस्त्रोक्यवासीषु निर्दगेशु तदा सूर्यस्तु सप्तभ वृष्ट क्षुत प्लातायाजने वा समुद्राश्चैवमेकाश्च आपश्चैवाथ पार्थिवाः शरमाणा व्रचन्त्येव सलिलाख्यास्तथा चलाः आगतागतिकं चैव यथादु सलिलं बहु सञ्चाद्ये मां तदा भवद आभादि यस्माच्चा भासाद्भा शब्दकान्तिदीप्तिषु स सर्वसमनुप्राप्तामासाभाभ्यो विभाव्यते तदन्तस्तनुदे यस्मात् पृथ्वीं समततः धातुस्तनो दिविस्तारं चारित शीर्णेनाथ धाच्य ये काो नशीर्नास्ते ना ना, ना तस्ुगहस्राते संस्थित ब्रमणो हनीनिया वर्तंध्यालमन ततस्ते सली तस् पृथिवीतले प्रशादवादे निरालोके सम ये नैवाधिष्ठिदीदं ब्रह्मणपुष प्रभु विभागमशोक प्रकर्तमु पुनरछत ये कातस्तावरजंग तदा भवति स ब्रह्मा सहस्राक्षःसहस्रपात् सहस्रशीर्षपुरुषो रुक्मवर्णो ह्यतीन्द्रियः ब्रह्मा नारायणाख्यस्तु सुष्वापसलिले तदा सत्त्वोद्रेकात् प्रबुद्धस्तु सशून्यं लोकमैक्षद अनेनाद्यनपादेन पुराणं परिकीर्तितम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे लोककल्पनं नाम पञ्चमोऽध्यायः ओ